कारणं दुःखस्य केशवचन्द्रः ब्रह्मसमाजस्य प्रमुखः नेता आसीत् कदाचित् इङ्ग्लेण्ड् देशं प्रति गमनसमये सः महर्षिं दयानन्दम् उक्तवान् महत् दुःखम् अस्ति मम यत् भवान् देशस्य अद्वितीयः विद्वान् अस्ति तथापि आङ्ग्लभाषां न जानाति अन्यथा वैदिकसंस्कृतेः महत्त्वं प्रतिपादयितुम् एतस्यां यात्रायां भवतः अपि सहभागिता अभविष्यत् तथा महर्षिः दयानन्दः मन्दस्मितेन उक्तवान् ममापि दुःखमस्ति ब्रह्मसमाजस्य नेता स्वपूर्वजानां भाषां संस्कृतं न जानाति सः स्वदेशे विदेशीयभाषया उपदिशति यां भाषाम् अत्रत्याः जनाः अवगन्तुमेव न शक्नुवन्ति